एवत् दशकम् रासक्रीडै नाल तव विलोगना कृष्णा गोपिका जना कृष्णा पङ्गजे क्षणा अमृतधारया कृष्णा इव स्मित दतु कृष्णा त्वत्पुरोगता तदनु कृष्णा त्वत्कराम्बुजम् सभदि गृह्णति कृष्णानिर्विशङ्गितम् गुणभयोदरे कृष्णा संविदाय सा पुलगसम्भृता कृष्णा तत्तुषेचितम् तव विभो कृष्णा कोमलम् भुजम् निजगलान्तरे कृष्णा पर्यवेष्टय गलसमुद्गतं कृष्णा प्राणमारुतम् प्रतिनिरुन्ददीव कृष्णा अतिहर्षुला निदधती कथा कृष्णापूर्णकामता विकरुणो वने कृष्णा संविहाय मा अपगतोऽसिका कृष्णा स्वामिक इति सरोषया कृष्णा तावदेगया स जललोचनम् कृष्णा वीक्षितो भव इति मुदा कुलैर् वल्लवी जनै सममुपागतो कृष्णायामुनेतटे मृदुकुशाम्बरे कृष्णा कल्पिदासने गुशृणबासुरे कृष्णा पर्यचोपत कतिविधा कृपा कृष्णा केऽपि सर्वतो धृतदयोदया कृष्णा केचिदाश्रते कदिशिदीतृशा कृष्णा मातृचेष्वीति यभिहितो बवान कृष्णा वल्लवी जनै अयि कुमारिका कृष्णा नैव सङ्क्यता कठिनता मयि कृष्णाप्रेम कातरे मयितु चेतसो कृष्णावोनुवृद्धये कृदमितम् मयेत् कृष्णावो चिवान्भव अयिनिशम् यताम् कृष्णा जीवल्लभा प्रियतमो जनो कृष्णानि दृशो मम तदिकरम् यताम् कृष्णारम्ययामिनीशो अनुपरोदमिति कृष्णा आलपो विभो इदि गिराधिकम् कृष्णामोदमे दुरै व्रजवदूजनैः कृष्णा साकमारमन् कलितकौतुको कृष्णारासखेलने गुरुपुरीपते कृष्णा पाहि मां गता कृष्णा पाहि मां गता परी पाहि मां प्यारी मुरारी नन्दला